अथकाशतम कर्ण उवाच दुर्ोधन तव प्रज्ञा न सम्यगि मे न नुपाए ना शक पांडवा कुरुवर्धना पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया निग्रहीतुं तदा वीरा न चैव शकितास्त्वया इहैव वर्तमानास्ते समीपे तव पार्थिव अजातपक्षा शिशवः शकिता नैव बाधितुम् जातपक्षाविदेशस्था विवृद्धा सर्वशोद्यते नोपायसाध्याः कौन्तेया ममैशामतिरच्युता नचते च ते व्यसनैर्योक्तुं शक्यादिष्टकृतेन च शकिताश्चेत्सवश्चैव पितृपैतामहं पदम् परस्परेण ना भेदश्च नाधातुं तेषु शक्यते एकस्यां ये रताः पत्न्याम् न भिद्यन्ते परस्परम् न चापि कृष्णा शक्येत तेभ्यो भेदयितुम् परैः परिद्यूनान्वृतवती किमुताद्यमृजावतः ईप्सितश्च गुणस्त्रीणामेकस्या भर्तृता तं च प्राप्तवती कृष्णा न क्षमा